अथ पञ्चमः सर्गः सन्दिश्य रामम् नृपति श्वोभाविन्यभिषेचने पुरोहितम् समाहूय गच्छो पवासं काकुत्स्थम् कारयाद्य तपोधरा श्रेयसे राज्यलाभाय वध्वा सहयतव्रता तथेति च स राजानमुक्त्वा वेदविदाम्बरः स्वयम् वसिष्ठो भगवान् ययौ रामनिवेशनम् उपवासयितुम् वीरम् मन्त्रविन्मन्त्रकोविदम् ब्राह्मम् रथवरं युक्तमास्थाय सुहृदौ रतः स रामभवनम् प्राप्य पाण्डुराभ्रघनप्रभम् तिस्रः कक्ष्या विवेशमुनिसत्तमः तमागतमृषिम् मानयिष्यन् समानार्हम् निश्चक्रामनिवेशनात् अभ्येद्यत्वरमाणोऽथ रथाभ्यासम् मनीषिणः तथोऽवतारयामास परिगृह्य रथात् स्वयम् स चैनम् प्रश्रितम् दृष्ट्वा सम्भाष्याभिप्रसाद्य च प्रियार्हम् हर्षयन् राममित्युवाच पुरोहितः प्रसन्नस्तेऽपिता रामय त्वम् राज्यमवाप्स्यसि उपवासम् भवानद्य करोतु सह सीतया प्रातस्त्वामभिषेक्ता हि यौवराज्येन राधिपः पिता दशरथः प्रीत्या ययातिम् न हुशो यथा इत्युक्त्वा स तदा राममुपवासम् यतौ व्रतः मन्त्रवत्कारयामास शुचिः ततो यथावद्रामेण स राज्ञो गुरुरर्चितः अभ्यनुज्ञाप्य काकुत्स्थम् ययौ रामनिवेशनात् सुहृद्भ्यस्तत्र रामोऽपि सहासीनः प्रियम् वदैः सभाजितोऽपि वेषाथ ताननुज्ञाप्य सर्वशः हृष्टनारीणरयुतम् रामवेश्म तदा बभौ यथा मत्तद्विजगणम् प्रफुल्लनलिनम् सरः स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् निर्गत्य ददृशे मार्गम् वसिष्ठो जनसंवृतम् वृन्दवृन्दैरयोध्यायाम् राजमार्गाः समन्ततः बभूवोरभिसम्बाधाः कुतूहलजनैर्वृताः जनवृन्दोर्मिसङ्घर्षहर्षस्वनवृतस्तदा बभूवराजमार्गस्य सागरस्यैव निःस्वनः सिक्तसंरष्टरथ्याहि तथा च वलमालिनी आसीदयोध्या तदहः समुच्छ्रितगृहध्वजा तदा ह्ययोध्यानिलयः सस्त्री बालाकुलो जनः रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षन्नुदयम् रवेः प्रजालङ्कारभूतम् च जनस्यानन्दवर्धनम् उत्सुकोऽभूज्जनो द्रष्टुम् तमयोध्या महोत्सवम् एवम् तज्जनसम्बाधम् राजमार्गम् पुरोहितः व्यूहन्निवजनौघन्तम् शमै राजकुलम् ययौ सिताभ्रशिखरप्रख्यम् प्रासादमधिरुह्य च समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः तमागतमभिप्रेक्ष्य हित्वा राजासनम् नृपः पप्रच्छस्वमतम् तस्मै कृतमित्यभिवेदयत् तेन चैव तदातुल्यम् सहासीनाः सभासदः आसनेभ्यः समुत्तस्थः पूजयन्तः पुरोहितम् गुरुणा त्वभ्यनुज्ञातो मनुजौघम् विसृज्यतम् विवेशान्तः पुरम् राजा सिंहो गिरिगुहामिव तदग्र्यवेष प्रमदा जनाकुलम् महेन्द्रवेश्म प्रतिमम् नभः रायणे वाल्मीक आदि का्योध्या पंचम सर्ग